बृहदारण्य उपनिषद अध्यामणम वन ओ जनकोहवैदेहो बहुदिणन यज्ञे तहु पंचालाना ब्रह्मणा अभिशेता बभूवस्तः जनक वैदेहा सा बभूव कस्विदेषां ब्राह्मणानामनुचानतम इति सह गवागुं सहस्रमवरुरोध दशदशपादा एकैकस्याशृङ्गयोराबद्धा बभूवुः तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्टस्य येदागा उदजदामिधि ते हब्राह्मणान् ददृशुरथः याज्ञवल्क्य स्वमेव ब्रह्मचारिणमुवाचैदा सौम्योदज सामश्रवा इति ता होदाचकारते हब्राह्मणाश्चुक्रोधु कथन्नो ब्रह्मिष्ठो ब्रुवीदेत्यथ हजनकस्य वैदेकस्य होदाश्वलो बभूवसहैनं पप्रच्छत्वनु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसि यदि सहोवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयग् स्म इति तगुंह तद एव प्रष्टुं दध्रे होदाश्वलः याज्ञवल्क्येदि होवाच यदिदघुं सर्वं मृत्युना पदगुं सर्वमित्युनाभिपन्नङ्केन यजमानो मृत्योराप्तिमधिमुच्यत यदि होत्रार्त्विजाग्निना वाचा वाग्वयज्ञस्य होदा तद्येयं वाक्सोऽयमग्निस्स होदा स मुक्तिः साधिमुक्तिः याज्ञवल्क्यदि होवाच यदि दगुं सर्वमहो रात्राभ्यामभिपन्नङ्गेन यजमानोः रात्रयोराप्तिमधिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषादित्येन चक्षुर्वैयज्ञस्याध्वर्युस्तद्यदिदं चक्षुःसो सा वादित्यसोऽध्वर्युःसमुक्तिः साधिक्रिः याज्ञवल्क्ये दिहोवाच यदि दघुं सर्वं पूर्वपक्षापर पक्षाभ्यामाप्तगं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नङ्गेन यजमानः पूर्वपक्षापरपक्षयोराप्तिमधिमुच्यत इत्युद्गात्रात्विजा वायुना प्राणेन प्राणो वैयज्ञस्योद्गदा तद्योयं प्राणः स वायुः स उद्गादास मुक्तिः साधिमुक्तिः याज्ञवल्क्ये या दिहोवाच यजमान केनाक्रमेण यजमानस्वर्गल्लोकमाक्रमद यदि ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वैयज्ञस्य ब्रह्म तद्यदिदं मानसोऽसौ चन्द्रः स ब्रह्म स मुक्तिः साधिमुक्तिरित्यधिमोक्षा अथ सम्पदः याज्ञवल्क्येदिहोवाच कदिभिरयमध्यभिर्होदास्मिन् करिष्यतीतिसृभिरिति कथमास्तास्तिस्र इति पुरोऽनुवाक्या च याज्ञ्या च शस्यैव तृतीया किन्ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति याज्ञवल्क्येति कोवाचकत्ययमध्याध्वर्युरस्मिन् यज्ञ आहुदीर्होष्यदीदि तिस्र इति कस्मास्तास्तिस्र इति याहुदा उज्ज्वलं दिया हुदा अधिने दन्देयाहुदा अधिशेरदे किन्ताभिर्जयति दिया उज्ज्वल देवोकमेविजय दीप्यद इवहि देवलोको या हुदी दंद पितृलोकमे ताजत ही पितृलोको या हुदिशे मनुष्यलोकमेव ताभिर्जयत्यथ इव हि मनुष्यलोकः याज्ञवल्क्ये दिगोवाच कतिभिरयमध्यब्रह्म यज्ञं दक्षिणतो देवताभिर्गोपा यदि त्येगयेदि गदमासैकेदि मनयेवेत्यनन्दं वै मनोनन्दा विश्वे देवा अनन्दमेव लोकं जयति याज्ञवल्क्ये दिहोवाच कत्यय या, मद्योद्गादास्मिन् यज्ञे स्तोत्र्या स्तोष्यतीतिस्र इति कदमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कस्मात्स्था या अध्यात्ममिति प्राण एव पुरोनु वाक्यापानो याज्ञानशस्य किन्ताभिर्जयतीति पृथिवी लोकमेव वा पुरोनु शस्य या तदोहोदाश्वल उपरराम इति तृतीयोऽध्याये प्रथमं ब्राह्मणम् बृहदारण्य उपनिषत् अध्यायं 3 ब्राह्मणं 2 ओम अध हैनञ्जारत्कारव आर्थभागः पप्रत्ययाज्ञवल्क्ये दि उवाच कधिग्रहा कथ्यधिग्रह इत्यष्टौ ग्रहा अष्टावधिग्रह इति ये तेष्ठौ ग्रहा अष्टावधिग्रहा कथमेत इति प्राणवैग्रहसोपानेनादिग्राहेण गृहीतोपानेन हि गन्थान् जिघ्रति वाग्वैग्रहस्य नाम्नादिग्राहेण गृहीतो वाचाहि नामान्यभिवदति जिह्वा वैग्रहस्य रसेनाधिग्राहेण गृहीतो जिह्वायाहि रसान्विजानादि चक्षुर्वैग्रहस्य रूपेणाधिग्राहेण गृहीदश्चक्षुषा हिरूपाणि पश्यति श्रोत्रं वैग्रहस्य शब्देनाधिग्राहेण गृहीदः श्रोत्रेण हि शब्दान् मनो वै ग्रहस्य कामेनाधिग्राहेण गृहीतो मनसा हि कामान् कामयदे अस्ता वै ग्रहस्य कर्मणाधिग्राहेण गृहीतो हस्ताभ्यागं हि कर्म करोति त्वग्वैग्रहसस्पर्शे नाधिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयद इत्येतेष्ठ ग्रहा अष्टावधिग्रहाः याज्ञवल्क्ये दिवो वाच यदि दग्धुं सर्वं मृत्योरन्नं कास्त्वित् सा देवता यस्या मृत्युरन्नमित्यग्नेर्वै मृत्युः शोभामन्नमपपपुनर्मृत्युञ्जयति याज्ञवल्क्येदि होभाजयत्रायं पुरुषो पुरुषोम्रियद उदस्मात् प्राणाक्रामन्द्याहो नेदि नेदि होवाज याज्ञवल्क्योऽत्रैव समवनीयन्दे स उच्छ्व यद्ध्यात्मा यद्ध्यात्मादो मृतश्चेदे याज्ञवल्क्ये दिहोवाच यत्रायं पुरुषो म्रियते किमेन जहादीदि नामेत्यनन्दं वै नामानन्दा विश्वे देवा अनन्दमेव स तेन लोकं जयति याज्ञवल्क्येति उवाच यत्रास्य पुरुषस्य मृदस्याग्निं वागप्येदि वादं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिश्रोत्रं पृथिवीगुं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पदीन् केशा अप्सुलोकितं च रेतश्च निधि यथे पुरुषो भवदीत्याहरसौम्यहस्तमार्थभागावामेवै तस्य वेदिश्यावो न नावेत् तत्सजन इति तौ ओत्क्रम्य मन्त्रयाञ्चक्रादेतौः यदुश्च दुःकर्म हैव तदु चतुरथ यत्प्रशसकं स दुःकर्म हैव कर्मणा है भवति पापः पापेनेति जारस्कारव आर्तभाग उपरराम इति तृतीयोऽध्याये द्वितीयं ब्राह्मणम् ओ